श्रीमद्भागवत् महापुराणं द्वादशस्कन्धम् अथ नवमोऽध्यायः मार्कण्डेजी का मायादर्शन् श्रोतुवाच संस्कृतो भगवान् इत्थं मार्कण्डेयेन धीमता नारायणो नरसखप्रीत आह भृगुद्वहं श्रीभगवानुवाच भो भो ब्रह्मर्षिवर्यासि सिद्ध आत्मसमाधिना मयि भक्त्यानपायिन्या तपस्वाध्यायसंयमे वयं ते परितुष्टा स्म तद्बिहन् ब्रदर्चयञ्चर्यया वरं प्रतीक्ष भद्रं ते वरते सादुभीप्सितम् टिसुरुवाच जितं ते देवदेवे स प्रपन्नार्तिहराच्युत वरेणैतावतालं नो यद्भवान् समुदिश्यतृत्वा जादयो यश्च श्रीमत्पादाब्जदर्शनं मनसा योगपक्वेन स भवान् मेक्षगोचरः अथाप्यं ज्योम् अथाप्यं बुजपत्राक्ष पुण्यश्लोकशिखावळे दक्षे मायां जयालोकशपालो वेदसद्विधां श्रोतुवाच इति ईडितोऽर्चितकामऋषिणा भगवान्मरे तथेति स स्मयन् प्रागाद्बदर्याश्रममेश्वरः तमेव चिन्तयन्नर्थं ऋषेशाश्रमये वच वसन्नग्नर्कसोमाम्बोभू वायोत्मसु ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत क्वचित् पूजां सस्मार प्रेम प्रसरसंप्लुतः तस्यैकदा भृगुशेष पुष्पभद्रातटे मुरेः उपासीनस्य सन्ध्यायां ब्रह्मण् वायुरभुन्महान् तं चण्डशब्दं समुदीर्यन्तं बलाः का अन्नभवन्कराराः अक्षस्तभेष्ठामुपचुस्तडिद्भिः स्वनन्त उज्जैरविवर्षधारा ततो व्रदिष्यन्त चतुस्समुद्रासमन्ततस्माकुलमाग्रसन्तः समीरवे गोर्मिभिरुग्रणक्र महाभयावर्तगभीरकोशा अन्तर्बहिश्चाद्भिरतिद्युतिभिःखरैः सदौ सदा भीरुपतापितं जगन् चतुर्विधं वीक्ष्य सहात्मना मुने जलाप्लुतां स्वां विमनाशमत्र सन् तस्यैवमुद्वेक्षत ऊर्मिभीषण प्रपञ्चनाघोर्णितवार्महार्णमः आपूर्यमाणो वर्षद्भिरम्बुदैष्मामप्यधाद्वीपवर्षादिभीषमम् सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतं एवोर्वरितो महामुने बभ्रामवीक्षेप्य जटा जटान्धवत् क्षुद्रेभरीतो मकरैस्ति मिङ्गलै उपद्रुतो वीचि न तमस्य पारे पतितो भ्रमन् दिशो न वेदखं गां च परिश्रमेशितः क्वचिद्गतो महावरते तरलैस्ताडित क्वचिन् यादोर्भिर्भक्षते क्वापि स्वयमन्योन्यघातिभिः क्वचित् शोकं क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम् क्वचिन्मृत्युर्मवाप्नोते व्याध्यादेभिरुतार्जितः अयुतायुतं वर्षाणां सहस्राणि शतानि च व्यतिर्यो भ्रमस्तस्मिन् विष्णुमायावृतात्मनः स कदाचित् समस्तस्मिन् पृथिव्या ककुदे द्विजः न ग्रोधपोतं ददृशे फलपल्लवशोभितम् रागोत्तरस्यां शाखायां तस्यापि ददृशे शिशुं शयानं पर्णपुटके ग्रसन्तं प्रभयातमः महामरुकतुश्यामं सीमद्वन्दनपङ्कजां कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवं श्वासै श्वासैजलकाभातं कम्बुश्रीकर्णधाडिमम् विद्रुम्माधर्भासे सछोडायितसुधास्मितम् पद्मगर्भारुपर्णापाङ्गं हृद्यहासावलोकनं श्वासै जज्वलिसंविग्ननिम्ननाभेदलोदरं चार्वङ्गुलिभ्यां पाणिभ्यां नियचरणाम्बुजं मुखे निधाय विप्रेन्द्रोधयन्तं वीक्ष्य विस्मितः तद्दर्शनाद्वीतपरिश्रमो मुदा प्रोत्फुल्लषित्पद्मविलोचनाम्बुजः प्रहिष्टरोमाद्भुतभावशङ्कित प्रष्टुं पुरस्तं प्रसारबालकम् तावच्छोर्वैश्वसितेन भार्गवः सोऽन्तः शरीरम् अशकूयसाविशन् तत्राप्यदो नस्तम् अचष्ट कृष्णन्कृष्णसो यथा पुरामु यदविन्दतीव विस्मितः खं रोदसीन् भगणानिन्दुसागरान् दीपान् सवरसान् ककुभसुरासुरान् वनानि देशान् सरितः पुराकरान् खेटान् रजानाश्रमवर्णवृद्धयः महान्तिभूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम् यत्किञ्चिदन्यतमं व्यवहारकारणम् ददर्श विश्वं सदिवावभासितम् हिमालयम् पुष्पवहां च तां नदीम् निजाश्रमम् तत्र ऋषेण पश्यत विश्वम् विपश्य स्रवसिता शिरसोर्वै दहिर्निरस्तो न पतल्ललाब्धौ तस्मिन् पृथिव्या ककुजीप्रसं प्ररूढं वटं च तत्पर्णपुटेशयानम् तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोपाङ्गनिरीक्षणेन असितं बालकं वृक्ष नेत्राभ्यां धिष्ठितं भृजे अभ्ययादति संक्लिष्टः परिस्वप्तो मथोक्षजम् तावत् स भगवान् साक्षाद्योगाधीशो गुहाशयः अन्तर्दधर्षे सद्यो यथेहानिश निर्मिताम् तमन्वथु वटो ब्रह्मण् सलिलं लोकसम्प्लवः तिरोधायै क्षणादस्य स्वाश्रमे पूर्ववर्तिस्थ ते श्रीमद्भागुते महापुराणे पारहिंसां शयितायां द्वादशस्कन्धे मायादर्शनं नाम नोमोऽध्यायः